कांडम सर्गम त्री। तदो दसरदो राजा अयोध्यादरथोंभ्युदय आदिश्य मंत्री प्रकृतिसानंदो गृह तत्रा दृष्ट्वा प्रियाम राजा किमें दिद विह्व या पुरा मंदीं तस् प्रवेश मई शोभना असंधमयाद सां नैवाद्य दृश्यते इत्म संचिंत मनसादिवूयता पच्छ दासीको कुदोवस्वामिनी शुभा नायादि नादी मधापू मिया प्रिदर्शना तवूझु क्रोधभवनम प्रविष्टान विमे कारण तवत्व गचेम भयसंत्रस्तो राजा तस्या समीपगः, उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीद किं शेषे वसुधापृष्ठे पर्यङ्गादीन् विहाय च मां त्वं खेदयसे भीरु यतो मां नावभाषसे अलंक परतज भूमौ मलिवासा किम ब्रूहि सकल विधा तव वाचित कौवा तवा हिदर्ता नारी वुषिवा सध्य भविष्य दशय ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् जानासि त्वं मम स्ववशे स्थितं तथापि मां खेदयसे वृथा तव परिश्रमः ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करं धनिनं क्षणमात्रेण निर्धनं च तवाहितं ब्रूहि वा वधिष्यामि वधार्हो वा विमोक्ष्यते किमत्र बहुनोक्देन प्राणान् दास्यामि प्रिये मम प्राणात् प्रियतरो रामो राजीवलोचनः तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् यदि ब्रुवाणं राजानं शपन्तं राघवोपरि शनैर्विमृज्यनेत्रे स राजानं प्रत्यभाषत यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि याज्ञा मे सफलं कर्तुं शीघ्रमेव पूर्वं देवासुरे युद्धे मया परिरक्षितः तदा वरद्वयं दत्तं त्वयामे मे तुष्टचेतसा तद्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत तत्रैकेन वरेणाशु भरतं प्रियं सुतं े संभृदारावराज्येषेचय अपरेण वरेशु रामो गु दंडका मुनिवेशधरश्रीमा जडालूषण चतुर्दश स कंदमूल फलाशन पुनरायादु तस्यान्ते वने वा तिष्ठतु स्वयं प्रभाते गच्छतु रामो राजीवलोचनः यदि किञ्चिद् विलम्बेदप्राणान् त्यक्ष्ये तवाग्रतः भव सत्यप्रतिज्ञस्त्वमे ददेव मम श्रुत्वै तद्दारुणं वाक्यं कैकेय्यारो महर्षणं महीपालो वज्राहद इवाचलः शनैरुन्मील्यनयने विमृज्य परयाभिया दुःस्वप्नो वा मया इत्यालोक्य थवाचिभ्रमोक्य पुप व्याघ्री पुस्थि किस भद्रे मम प्राण वचह राधम तेतवान्कम क्षण ममाग्रे राघवगुणान् वर्णयस्य निशंशुभान् कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा यदि ब्रुवन्ती त्वं पूर्वमिदानीं भाष्यसेनथा राज्यं गृहाणपुत्राय रामस्तिष्टदु मन्दिरे अनुगृह्णीष्व मां वा मे रामानास्ति भयं तव चित्युक्त्वाश्रु परीताक्षःपादयोर्निपपादः कैकेयीप्रत्युवाचेदं सापि रक्तान्तलोचना राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेन्यथा मिथ्याकरोषि चेत् स्वीयं भाषितं नरको भवेत् वनं न गच्छेद्यदि रामचन्द्रः प्रभातकाले जिनचिरयुक्तः उद्बन्धनं वा विषभक्षणं वा कृत्वा मरिष्ये पुरतस्तवाहं सत्यप्रदिज्ञोऽहमितीह लोके विडम्बसेत्सर्वसभान्तरेषु रामोपरित्वं शपथं च कृत्वा मिथ्याप्रदिज्ञो नरकं प्रयाहि इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः मूर्च्छितः पदितो भूमौ विसंज्ञो मृतको यथा एवं रात्रिर्गदा तस्य दुःखात् संवत्सरोपमा अरुणोदयकाले तु वन्दिनो गायका जगुः निवारयित्वा तान् सर्वान् कैकेयी रोषमास्थिता ततः प्रभातसमये मध्यकक्षमुपस्थिताः ब्राह्मणाः क्षत्रिया वैश्या ऋषयकन्यकास्त छत्रं च चा चामरं दिव्यं गजो गजोवाजी तथैव च अन्याश्च वारमुख्यायाः पदास्तधा वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितं स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्राम्न लेभिरे कदा द्रक्ष्यामहेरामं पीदकौशेयवाससं सर्वाभरणसम्पन्नं किरीटकडकोज्ज्वलं कौस्तुभाभरणं श्यामं कन्दर्पशदसुन्दरम् अभिषिक्तं समायादं गजारूठं स्मिताननं श्वेद शत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् रामं कदा वा वा कदा भवेत् इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः नेदानीमुद्भितो राजा किमर्थं चेदि सुमन्द्रशनकैः प्रायाद्यत्र राजावतिष्ठते वर्धयन् जयशब्देन प्रणमन् शिरसा नृपम् अधिखिन्नं नृपम् दृष्ट्वा कैकेयीं समपृच्छत देवि कैकेयी वर्धस्व किं राजा दृश्यतेऽन्यथा समाः कैकेयी राजा रात्रौ निद्राम् न लब्धवान् राम रामेदि रामेदि राममेवानुचिन्तयन् प्रजागरेण वैराजाख्यस्वस्त इव इवलक्ष्यते। नय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति अश्रुत्वा राजवचनं कथं गच्छामि भामिनि तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीद सुमन्त्ररामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् इत्युक्तस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् अवारितः प्रविष्ठोऽयं त्वरितं राममब्रवीद शीघ्रमागच्छ भद्रं ते रामराजीवलोचन पिदुर्गे समया सार्धं इत्युक्तो रथमारुह्य सम्भ्रमा त्वरितो ययौ रामसारधिना सार्धं समन्वितः मध्यकक्षे वसिष्ठादीन्पश्यन्नेव त्वरान्वितः पितुः समीपं सङ्गम्य ननाम नाम चरणौ पितुः राममालिङ्गितुं राजा समुद्धाय ससम्भ्रमः बाहुप्रसार्य रामेधि दुःखान् मध्ये पपातः हाहेदि रामस्तं शीघ्रमालिङ्ग्याङ्गे न्यवेशयत् राजानं मूर्चिदं दृष्ट्वा शुकृष्युः सर्वयोषितः किमर्थं रोदनमिति वसिष्ठोऽपि समाविशत रामः पप्रकिमिदं राज्ञो दुःखस्य कारणं एवं पृच्छति रामे सा कैकेयी राममब्रवीत् मेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् कुरुसत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनं राज्ञावरद्वयं दत्तं मम सन्तुष्टचेतसा दधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः सत्यपाशेन सम्बद्धं पितरं त्रादुमर्हसि पुत्रशब्देन चैदद्धि नरकात्रायते पिता रामस्तयोदिदं श्रुत्वा शूलेनाभिहतो यथा व्यथीकैकेयीं प्राह किं मामेवं पित्रार्थे जीवितं पिबेयं विषमुल्बणं सीतां त्यक्ष्येधकौसल्यां राज्यं चापि त्यजाम्यहम् अनाज्ञप्तोऽपि कुरुते पितुः कार्यं उत्तमः उक्तः करोति यः पुत्रः स मध्यम उदाहृतः उक्तोऽपि कुरुते नैव स पुत्रो उच्यते अधः तत्सर्वं यन्मामाह पिता मम सत्यं सत्यम् करोम्येव रामोद्विर्नाभिभाषते इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे रामत्वदभिषेकार्थं सम्भारासम्भृताश्च ये तैरेव भरतो वश्यमभिषेच्य प्रियो मम अपरेण वरेणाशु चीरवासा जडाधरः वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया चतुर्दशसमास्तत्र वसमुन्यन्नभोजनः एतदेव पिदुस्तेद्यकार्यं त्वं कर्तुमर्हसि राजा तु लज्जदे वक्तुं त्वामेवं रघुनन्दन श्रीराम उवाच भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् किन्तु राजान वक्तीह माम्न न जानेत्र कारणं श्रुत्वैतद्रामवचनं दृष्ट्वा रामम् पुरस्थितं प्राह राजादशरथो दुःखितो दुःखितं वचः स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनं निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् एवं चेदनृतं नैव मां स्पृश्येद्रघुनन्दन इत्युक्त्वा दुःखसन्तप्तो विललापनृपस्तदा हाराम हा जगन्नाथ हा, हा मम प्राणवल्लभ मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि इति रामं समालिङ्ग्य मुक्तकण्ठोरुरोधः विमृज्य नयने रामः पितुः सजलपाणिना आश्वासयामास नृपं स नैः स विभो राज्यं शास्तु मेनुजः अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते राज्यात् कोटिगुणं सौख्यं मम राजन्वने सतः त्वत्सत्यपालनं देव कार्यं चापि भविष्यति कैकेय्याश्च प्रियो राजन्वनवासो महागुणः इदानीं गन्तुमिच्छामि व्येदुमातुश्च हृज्वरः सम्भारश्चोपह्रीयन्तामभिषेकार्धमाहृताः मातरं समनुश्वास्य अनुनीय च जानकीम् आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् ुवादी क्रम्यदरम द्रष्टु कौसल्यापि हरे पूजा कुरुते राम कारणा होम चयास ब्राह्मणे दद धनम अग्र मनसा। मौनमास्थिता अन्तस्तमेकं कनचित्प्रकाशं निरस्तसर्वातिशयस्वरूपं विष्णुं सदानन्दमयं हृदब्जे सा दीन ददर्श रामम् यदि श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे तृतीयसर्गः ओ